संहितापढम् आहारुषन्त्वा विदन्द्वा पुनरागाः पुनर्नव सर्पाङ्गसर्पन्दे चक्षुःसर्पमायुश्चतेविदम् आहारुषन्त्वा विद्वानरागाः पुनर्नव सर्पाङ्ग सर् वन्दे चक्षुःसर्वमायुश्चतेविदम् आहारिषन्त्वा विदन्त्वा पुनरागाः पुनर्नव सर्पाङ्गसर्पन्दे चक्षुःसर्वमायुश्चतेविदम्